गरुडपुराणम् आचारकाण्डम् अध्यायम् त्रि सूत उवाच इति रुद्राब्दजौ विष्णो शुश्रावब्रह्मणो मुनिः व्यासो व्यासादकम् भक्ष्येऽहम् ते शौनकनैमीषे मुनीनाम् शृण्वताम् मध्ये सर्गाद्यां देवपूजनं तीर्थं भुवनकोशं च मन्वन्तरमिहोच्यदे वर्णाश्रमादिधर्माश्च दानराज्यादिधर्मकाः व्यवहारो व्रतं वंशावैद्यकं सनिदानकम् अङ्गानि प्रलयो धर्मकामार्थज्ञानमुत्तमम् सप्रपञ्चम् निष्प्रपञ्चम् कृतम् विष्णोर्निगद्य दे पुराणे गारुडे सर्वम् गारुडो भगवानद वासुदेवप्रसादेन सामर्थ्यातिशयैर्युदः भूत्वा हरे वाहनम् च सर्गादीनाम् च कारणम् दैवान्विजित्य गरुडो ह्यमृदाहरणम् तथा चक्रेक्षुदाहृदं यस्य ब्रह्माण्डमुदरे हरेः यम् दृष्ट्वा स्मृतमात्रेण नागादीनाम् च सङ्क्षयम् कश्यपो गारुडाद्वृक्षम् दग्धम् चा जीवयद्यदः गरुडः श्री कश्यपाय तच्छ्रीमद्रारूढम् पुण्यम् सर्वदम् पठतस्तव वक्ष्यव्यासम् नमस्कृत्य शृणुशौनक तद्यथा इति श्रीगारुडे महापुराणे आचारकाण्डे विषयनिरूपणम् नाम तृतीयोऽध्यायः ओम्